मार्कण्डेयपुराणम् अध्यायं 47 सवेन् क्रौस्तुगिरुवाच यथा ससर्ज वै ब्रह्मा भगवानादिकृत्प्रजाः प्रजापतिः पतिर्देवस्तन्मे प्रजा विस्तरदो वद मार्कण्डेय उवाच कथयाम्येषदे ब्रह्मन् ससर्ज भगवान् यथा लोककृच्चाश्वधकृत्स्नं जगस्तावरजङ्गमम् पद्मावसाने प्रलये निशासुपोद्धितः प्रभुः सत्त्वोद्रिक्तस्तदा ब्रह्मा शून्यं लोकमवैक्षद इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रदी। ब्रह्मस्वरूपिणं देवं जगदः प्रभवाप्ययम् आपो नारा वै तनव इत्यपां नाम शुश्रुम तासु शेदे स यस्मा तेन नारायणस्मृतः विबुद्धसलिले तस्मिन्विज्ञायान्तर्गतां महीम् अनुमानात् समुद्धारम् कर्तु कामस्तदाक्षिदे अकरोत्स तनूरन्याकल्पादिषु यथा पुरा मत्स्यकूर्मादिकास्तद्वद्वारासं वपुरास्थितः वेदयज्ञमयं दिव्यं वेद यज्ञमयो विभुः रूपं कृत्वा विवेशाक्षु सर्वगः सर्वसम्भवः समुद्धृत्य च पादालान्मुमोचसलिले भुवं जनलोकस्थितैः सिद्धैश्चिन्त्यमानो जगत्पदिः तस्योपरि जलौघस्य महदीनैरिव स्थिदा वितत्तत्वात्तु देहस्य न महीयादिसम्भवम् सतः क्षितिं समीकृत्य पृथिव्यां सोऽसृजद्गिरीन् प्राक्सर्गे दह्यमानेदु तदा संवर्तकाग्निना तेनाग्निना विशिर्नास्ते पर्वता भुवि सर्वशः शैला एकार्णवेमग्ना वायुना पस्तुसंहताः निशक्दा यत्र यत्रा संस्तत्र तत्राचलाभवन् भोवि भागन्तधकृत्वा सप्तद्वीपोपशोभितं भूराद्यां चतुरो लोकान् पूर्वं वत् समकल्पयद सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा अबुद्धिपूर्वकस्तस्मात्प्रादुर्भूदस्तमोमयः स्तमोमोहो महामोहस्तामिस्त्रो ह्यन्थसंस्निधः अविद्या पञ्च धावस्थितः सर्गोऽध्यायदोप्रतिबोधवान् बहिरन्तश्चाप्रकाशसंवृतात्मान्नात्मकः मुख्या नगा यतश्चोक्ता मुख्यः सर्गस्ततस्त्वयं तं दृष्ट्वा साधकं सर्गममन्यदपरं पुनः तस्याभिद्ध्या यदः सर्गं तिर्यक्स्रोदो ह्यवरुत यस्मात् तिर्यक्प्रवृत्तिस्ता तिर्यक्स्रोतस्तदस्मृदः पश्वादयस्ते विख्यातास्तमःप्रायो ह्यवेदिनः अत्पथग्राहिणश्चैव ते ज्ञाने ज्ञानमानिनः हङ्कृता अष्टा अष्टाविषद्विधात्मकाः अन्धप्रकाशास्ते सर्वे आवृतास्तु परस्परं तमप्यसाधगमत्वा ध्यायदोऽन्यस्तदोद्भवत् ऊर्ध्वस्त्रोधस्तृतीयस्तु सात्त्विकसमवर्तत ते सुख प्रीतिबहुला बहिरन्तस्त्वनावृताः प्रकाशा बहिरन्तश्च ऊर्ध्वस्त्रोधसमुद्भवाः तुष्टात्मकस्तृतियस्तु देवसर्गो हि सस्मृतः तस्मिन् सर्गे भवत्प्रीतिर्निष्पन्ने ब्रह्मणस्तदा तदोऽन्यं स तदा दध्यौ साधकं सर्गमुत्तमम् तदाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः प्रादुर्बभौ तदा व्यक्ता साधकः यस्मादर्वाग््यवर्दन्द तदोर्वाक्स्त्रोदसस्तु तेज प्रकाश बहुला, प्रकाशबुलामोद्रिक्ता रजोद्धि तस् दुखबहुलाू भूयच्चिण प्रकाश बहिंद मनुष्यासाधकाश्च ते चतुर्धा सचतुर्ध्यवस्थित विपर्ययेण सिद्ध्या च शान्त्या तुष्ट्या तथैव च निर्वृत्तं वर्तमानञ्च तेऽर्थं जानन्ति वै भूतादिकानां भूतानां षष्ठः उच्यते ते परिग्राहिणः सर्वे संविभागरतास्तथा चोदनाश्चाप्यशीलाश्च ज्ञेया भूदाधिकाश्च ते प्रथमो महदः सर्गो विज्ञेयो ब्रह्मणस्तु सः तन्मात्राणां द्वितीयस्तु भूतः उच्यते वैकारिकस्तृतीयस्तु सर्गश्चैन्द्रियकस्मृतः इत्येष प्राकृसर्गः सम्भूतो बुद्धैः पूर्वकः मुख्यः सर्गश्चतुर्ध्वस्तु मुख्या वैस्थावरा स्मृताः तिर्यक्स्त्रोतस्तु यः प्रोक्तस्तिर्यज्ञोन्यस्य पञ्चमः तदोर्ध्वस्त्रोतसां षष्ठो देव सर्गस्तु सस्मृदः तदोर्वाक्स्रोतसां सर्गः सप्तमः सधुमानुषः अष्टमोऽनुग्रहः सर्गस्सात्त्विकस्तामसश्च सः पञ्चैदेवै कौमारो नवमस्मृदः इत्ये समाख्यादा ई सामख्यासर्गा प्रजापते श्री सर्गो नाम सप्तवांशोध्याय